अथ श्रीमहाभारते आदिपर्वणि एकचत्वारिंशोऽध्यायः सौतिरुवाच एवमुक्तः सतेजस्वी तेजस्वी शृङ्गीकोपसमन्वितः मृतधारं गुरुं श्रुत्वा पर्यतप्यतमन्युना सतं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् अपृच्छत्तम् कथम् तातः समेद्य कृश उवाच राज्ञा परिधावत अवसक्तः पितु स्तेद्य तस्य राज्ञोऽनिष्टम् दुरात्मनः ब्रूहितत्कृशतत्त्वेन पश्य कृश उवाच स राजा मृगयां यातः परीक्षिदभिमन्युजः ससारमृगमेकाकी विद्ध्वा शीघ्रगम् न चापश्यन्मृगम् राजाचरंस्तस्मिन्महावने पितरम् ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् तं स्थाणुभूतम् तिष्ठन्तम् क्षुत्पिपासाश्रमातुरः पुनः पुनर्मृगं नष्टं पप्रच्छप्पितरं तव स च मौनव्रतोपेतो नैव तं तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत शृङ्गिस्तव पिता सोऽपि तथैवास्ते सो स्वनगरं प्रस्थितो गजसाह्वयम् सौतिरुवाच श्रुत्वैव मृषिपुत्रस्तु शवम् स्कन्धे प्रतिष्ठितम् कोपसंरक्तनयनः प्रज्वलन्निवमन्युना आविष्टः सहि हि कोपेन शशापनृपतिम् तदा वायुपस्पृश्य तेजस्वी क्रोधवेगबलाकृतः शृङ्गुवाच योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्यः स्कन्धे मृतं समा साक्षीत्पन्नगम् राजकिल्बिषी तम् पापमतिसङ्क्रद्धस्तक्षकः पन्नगेश्वरः आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः सप्तरात्रादितो नेता यमस्य सदनम् प्रति द्विजानामवमन्तारम् कुरु सौतिरुवाच इति शप्त्वाः शृङ्गी पितरमभ्यगात् आसीनम् गोप्रजे तस्मिन् वहन्तम् शवपन्नगम् सतमालक्ष्य पितरम् शृङ्गि स्कन्धगतेन वै शवेन भुजगेनासीत् भूयः क्रोधसमाकुलः दुःखाश्चाश्रूणि मुमुचे पितरम् चेदमब्रवीत् श्रुत्वे ज्ञा परीक्षिता कोपादशपं तमहं नृपं यथार्हति स एवोग्रं शापं कुरुकुलाधमः सप्तमेहनितं पापं तक्षकः पन्नगोत्तमः वैवस्वतस्य नेता परमदारुणं तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्